नारदपुराणं पूर्वार्थम् अध्यायं 41 नारद उवाच आख्यादं भवदा सर्वं मुने तत्त्वार्थकोविद इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणं सनक उवाच साधु साधु महाप्राज्ञ मुने लोकोपकारकयुगधर्मान् प्रवक्ष्यामि सर्वलोकोपकारकान् धर्मो विवृद्धिमायादिकाले कस्मिंश्चिदुत्तम तथा विना समायादि धर्म एव महीतले कृतं त्रेधा द्वापरं च कलिश्चेदि चतुर्युगम् दिव्यैर्द्वादशभिर्ज्ञेयं वत्सरैस्तत्र सत्तम सन्ध्या सन्ध्यांशयुक्तानि युगानि सदृशानि वै कालदो वेदितव्यानि इत्युक्तं तत्त्वादर्शिभिः आद्ये कृतयुगं प्राहुस्तदस्त्रेधा विधानकम् ततश्च द्वापरं प्राहु कलिमन्द्यं विधुक्रमाद देवदानवगन्धर्वा यक्षराक्षसपनगाः नास्सन् कृतयुगे विप्र सर्वे देव समास्मृताः सर्वे हृष्ठाश्च धर्मिष्ठा न तत्र क्रयविक्रयौ वेद विभाग युगे कृतस ब्राह्मण क्षत्रिया वैश्यास्वाचार तत् सदा नारायण परास्तोद्यान कामादि कामोष निर्मुक्ताश्रमादिगुणतत्पराः धर्मसाधनचित्ताश्च गदासूया अदाम्भिकाः सत्यवाक्यरदा सर्वे चतुराश्रमधर्मिणः वेदाध्ययनसम्पन्ना सर्वशास्त्रविचक्षणाः चतुराश्रमयुक्तेन कर्मणा कालयोनिना अकामफलसंयोगाः प्रयान्ति परमां गतिं नारायणकृतयुगे शुक्लवर्णः सुनिर्मलः त्रेधा धर्मान् प्रवक्ष्यामि शृणुष्व सुसमाहितः धर्म पाण्डुरदां यादि त्रेधायां मुनिसतमहरिस्तुरक्दातां यादि किञ्चित्क्लेशान्विदा जनाः क्रियायो गरदा सर्वे यज्ञकर्मसुनिष्ठिताः सत्यव्रता ध्यानपरा सदा ध्यानपरायणाः द्विपादो वर्तते धर्मो द्वापरे च मुनीश्वर हरिः पीतत्वमायाति वेदश्चापि विभज्यते असत्यनिरताश्चापि केचित्तत्र द्विजोत्तमाः ब्राह्मणाद्याश्च वर्णास्युः केचिद्रागादि दुर्गुणाः केचित्स्वर्गापवर्गार्थं विप्रयज्ञान् प्रकुर्वते केचिद्धनाधिकामाश्च केचित् कल्मषचेतसः धर्मा धर्मौ समौ द्वापरे विप्रसत्तम अधर्मस्य प्रभावेण क्षीयन्ते च प्रजास्तथा अल्पायुषो भविष्यन्ति केचिञ्चाभिमुनीश्वर केचित्पुण्यरथान् दृष्ट्वा असूयां विप्रभुवते। कलिस्थितिं प्रवक्ष्यामि तच्छृणुष्व समाहितः धर्मकलियुगे प्राप्ते पादेनैकेन ना वर्तते तामसं युगमासाद्य हरिकृष्णत्वमेतिच च धर्मात्मा यत्नाचारान् करोतिच च यः कश्चिदपि पुण्यात्मा क्रियायोगरथो भवेद् नरं धर्मरथं दृष्ट्वा सर्वे सूयां प्रकुर्वते व्रता चाराः प्रणश्यन्ति ज्ञानयज्ञादयस्तथा उपद्रवा भविष्यन्ति ह्यधर्मस्य प्रवर्तनाद् असूया निरताः सर्वे दम्भाचारपरायणाः प्रजाश्चाल्पायुष सर्वा भविष्यन्ति कलौ युगे नारद उवाच युगधर्मसमाख्यादास्त्वया संक्षेपदो मुने कलिं विस्तरदोब्रूहित्वं हि धर्मविदां वरः ब्राह्मणाः क्षत्रिया वैश्याशूद्राश्च मुनिसत्तम किमाहार किमाचाराः भविष्यन्ति कलौ युगे सनक उवाच शृणुष्वमुनिशार्दूल सर्वलोकोपकारककलिधर्मान् प्रवक्ष्यामि विस्तरेण यद्धा तथं सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते तस्मात् कलिर्महाकोरः सर्वपादकसङ्करः ब्राह्मणाः क्षत्रिया वैश्याशूद्राधर्मपराङ्मुखाः कौरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः व्याजधर्मरदा सर्वे असूया निरतास्तथा वृद्धाहङ्कारदुष्टाश्च सत्यहीनाश्च पण्डिताः असमेवाधिक इति सर्वेपि विवदन्ति च अधर्मलोलुपाः सर्वे तथा वैतं हि का नराः अधस्वल्पायुषः सर्वे भविष्यन्ति कलौ युगे अल्पायुष्ठवान्मनुष्याणां न विद्याग्रहणम् द्विज विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः युत्क्रमेण प्रजा सर्वा म्रियन्ते पापतत्पराः ब्राह्मणाद्यास्तदा वर्णा सङ्कीर्यन्ते परस्परं कामक्रोधपरामूढा वृथा सन्तापपीडिताः शूद्रतुल्या भविष्यन्ति सर्वे वर्णाकलौ युगे उत्तमानि च दां यान्ति नीचाश्चोत्तमदां तथा राजनो द्रव्यनिरदास्तथा ह्यन्यायवर्तिनः पीडयन्ति प्रजाश्चैव करैरत्यर्थयोजितैः शववाहा भविष्यन्ति शूद्राणां च द्विजातयः धर्मस्त्रीष्वपि पदयो जारधर्मिणः द्विषन्ति पितरं पुत्रा भर्तारं च स्त्रियोखिलाः परद्रव्य परद्रव्यपरायणाः मत्स्यामिषेण जीवन्ति दुःखं तश्चाप्यजीविकां कोरे कलियुगे विप्र सर्वे पापरदा जनाः सदामसूयानिरतामुपहासं प्रकुर्वते सरितीरेषु कुदालैर्वापयिष्यन्ति चौषधीः पृथ्वी निष्फलतां यादि बीजं पुष्पं विनश्यति वेश्यालावं यः शीलेषु स्पृहा कुर्वन्ति योषिदः धर्मविक्रयिणो विप्रा स्त्रियश्च भगविक्रयाः वेदविक्रयकाश्चान्ये शूद्राचाररता द्विजाः साधूनां विधवानां च वित्तान्यपहरन्ति च नव्रतानि चरिष्यन्ति ब्राह्मणा द्रव्यलोलोपाः धर्माचारं परित्यज्य वृथा वा दैर्विसज्जिताः द्विधा कुर्वन्ति दम्भार्थं पितृश्राद्धादिका क्रियाः अपात्रष्वेव दानानि दुग्धलोभनिमित्तेन गोषु प्रीतिं च कुर्वते न कुर्वन्ति तथा विप्रास्नानशौचादिकाक्रियाः अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः साधुनिन्दापराश्चैव विप्रनिन्दापरास्तथा न कस्यापि मनो विप्रविष्णुभक्तिपरं भवेद् यज्विनश्च द्विजानैव धनार्थराजकिङ्कराः ताडयन्दिद्विजान्द्विष्टाः कृष्णे कृष्णत्वमागदे दानहीनानरा सर्वे कोरे कलियुगे मुने प्रतिग्रहं प्रकुर्वन्ति पतितानामपि द्विजाः कले प्रथमपादेऽपि विं निं दन्ति हरिं नराः युगान्ते च हरेर्नाम नैव कश्चिद्वदिष्यति शूद्रस्त्रीसङ्गनिरदा विधवा सङ्गलोलुपाः शूद्रान्नभोगनिरदा भविष्यन्ति कलौ द्विजाः विहाय वेदसन्मार्गं कुपधाचारसङ्गदाः पाषण्डाश्च भविष्यन्ति पाषण्डाश्च भविष्यन्ति चतुराश्रमनिन्दकाः न च तिशुश्रूषां कुर्वन्ति चरणोद्भवाः द्विजातिधर्मान् गृह्णन्ति पाखण्डलिङ्गिनोधमाः काषाय परिवीताश्च जटिला भस्मधूलिताः शूद्राधर्मान् प्रवक्ष्यन्ति कूडयुक्तपरायणाः द्विजा स्वाचारमुत्सृज्य चपरपाकान्नभोजिनः भविष्यन्ति दुरात्मानशोद्रा प्रव्रजितास्तथा उत्कोच जीविनस्तत्र भविष्यन्ति कलौ मुने धर्मटीनास्तु पाषण्ड पापाला भिक्षवो धमाः धर्मविध्वंसशीलानां द्विजानां द्विजसत्तमशूद्राधर्मान् प्रवक्ष्यन्ति ह्यधिरुह्योत्तमासनं यदे चान्ये च बहवो नग्न रक्तपटाधिकाः पाषण्डाः प्रचारिष्यन्ति प्रायो वेदविदूषकाः गीतमादित्रकुशलाः क्षुद्रधर्मसमाश्रयाः भविष्यन्ति कलौ प्रायो धर्म विध्वंसका नराः अल्पद्रव्या वृद्धालिङ्गा वृद्धाहङ्कारदूषिताः अर्तारं परवित्तानां भवितारो नराधमाः प्रतिग्रहपरा नित्यं जगदुन्मार्गशीलिनः आत्मस्तुतिपरा सर्वे परनिन्दा परास्तथा विश्वस्तपादिनक्रूरा दया धर्मविवर्जिताः भविष्यन्ति नरा विप्रकलौ चाधर्मबान्धवाः परमायुश्च भविता तदा वर्षाणि षोडशकोरे कलियुगे वर्षा प्रसूयते सप्तवर्षा षड्वर्षाश्च युवानो तः परे जरा स्वकर्मत्यागिन सर्वे हृदघ्नाभिन्नवृत्तयः याच काश्च याच काश्च द्विजा युगे परा वमाननिरदा प्रहृष्टा परवेश्मनि तत्रैव निन्दा निरदा वृद्धा विश्रम्भिणो जनाः निन्दां कुर्वन्ति सततं पितृमातृसुतेषु च वदन्दि वाचा धर्मांश्च च दशा पापलोलुपाः धनविद्यावयोमत्ताः सर्वदुःखपरायणाः व्याधितस्करदुर्भिक्षैः पीडिता अधिमां यिनः कुपुष्यन्ति वृद्धैवामि न विचार्य च दुष्कृतम् धर्ममार्गप्रणेतारं तिरस्कुर्वन्ति पापिनः धर्मकार्ये रतं चैव वृद्धा विश्रम्भिणो जनाः भविष्यन्ति कलौ प्राप्ते राजानो म्लेच्छ जादयः शूद्रा भैक्ष्यरताश्चैव तेषां शुश्रूषणे द्विजाः न शिष्यो न गुरु कश्चिन्न पुत्रो न पिता तथा न भार्या न पतिश्चैव भवितारोत्र सङ्करे कलौ भविष्यन्ति धनाढ्या अपि याचकाः रसविक्रयिणश्चापि भविष्यन्ति द्विजादयः धर्म कञ्चुकसंविदा मुनिवेशधरा द्विजाः अपण्यविक्रयरता अगम्यागामिनस्तद्धा वेदनिन्दापराश्चैव धर्मशास्त्रविनिन्दुकाः शूद्रवृत्त्यैव जीवन्ति नरकार्हा द्विजा मुने अनावृष्टभयं प्राप्ता गगनासक्तदृष्टयः भविष्यन्ति कलौ मर्त्या सर्वेक्षुभयकादराः कन्दर्पणफलाहारास्तापं सा इव मानवाः आत्मानं तारयिष्यन्ति अनावृष्ट्यादिदुःखिताः कामार्ता ह्रस्वदेहाश्च लुब्धाश्च धर्मतत्पराः कलौ सर्वे भविष्यन्ति स्वल्पभाग्या बहुप्रजाः स्त्रियस्वपोषणपरा वेश्या लावण्यशीलिकाः पदिवाक्यमनादृत्य सदान्यगृहतत्पराः दुःशीला दुष्टशीलेषु करिष्यन्ति सदा स्पृशा असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः शौरादिभयभेदाश्च काष्ठयन्त्राणि कुर्वते दुर्भिक्षकरपीडाभिरतीवोपदृता जनाः बोधू मान्नयवान्नाढ्ये देशे यास्यन्ति दुःखिताः निधाय हृद्यकर्मणि प्रेरयन्ति वचः शुभं स्वकायसिद्धिपर्यन्तं बन्धुतां कुर्वते जनाः भिक्षवश्चावमित्रादिस्नेहसम्बन्धयन्द्रिताः अनोपाधि अनोपाधिनिमित्तेन शिष्यान् गृह्णन्ति भिक्षवः उभाभ्यामथपाणिभ्यां शिरः कण्डूयनं स्त्रियः कुर्वन्त्यो गुरुभर्तॄणामाज्ञामुल्लङ्घयन्ति च पाषण्डालापनिरताः पाषण्डजनसङ्गिनः यदा द्विजा भविष्यन्ति तदा वृद्धिं कलिर्व्रजेद् यदा प्रजानयक्ष्यन्ति न होष्यन्ति द्विजादयः तदैव तु कलिर्वृद्धिरनुमेया विचक्षणैः अधर्मवृद्धिर्भविता भासमृत्युरपि द्विजा सर्वधर्मेषु नष्टेषु यादिनिःश्रीकदां जगद येवं काले स्वरूपं ते कथितं विप्रसत्तमहरिभक्तिपरानेश नकलिर्बाधते क्वचिद ततः परं कृतयुगे त्रेदायुगे त्रेदायां ध्यानमेव च द्वापरे यज्ञमेवाहुर्दनमेकं कलौ युगे यत्कृदे दशभिर्वर्षयस्त्रेदायां शरदा च यद् द्वापरे यञ्जमासेन ह्यहोरात्रेण तत्कलौ यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् अहोरात्रं हरेर्नाम कीर्तयन्ति च ये नराः कुर्वन्ति हरिपूजां वा न कलिर्बाधते च तान् नमो नारायणा येदि कीर्तयन्ति च ये निष्कामा वा सकामा वा न कलिर्बाधते च तान् हरिनामपराये दुखोरे कलियुगे द्विज तयेव कृतकृत्याश्च न कलिर्बाधते हि तान् हरिपूजा पराय च हरिनाम परायणाः तयेव शिवतुल्याश्च नात्र कार्या विचारणा समस्तजगदाधारं परमार्थस्वरूपिणं घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति अहो अधि सुभग्याश्चे सकृद्वै केशवार्चकाः खो कलियुगे प्राप्ते सर्वधर्मविवर्जिते न्यूनातिरिक्तदोषाणां कलौ वेदोक्तकर्मणां हरिस्मरणमेवात्र सम्पूर्णत्वविधायकम् हरेकेशव गोविन्दवासुदेवजगन्मय इति रयन् द्विये नित्यम् न हि तान् बाधते कलिः शिवशङ्कर रुद्रेश नीलकण्ठत्रिलोचन यदि जल्पन्दि एवापि कलिस्तान्नापि बाधते गंगाधर गङ्गाधरमृगाव्यय युद्धं वदन्ति ये विप्र ते कृतार्थान संशयः जनार्दन जगन्नाद पीताम्बरधराच्युद यदि वाप्योच्चरन्तीह न च तेषां कलेर्भयं संसारे सुलभाः पुंसां पुत्रदारधनादयः कोरे कलियुगे विप्रहरिभक्तस्तु दुर्लभा कर्म श्रद्धाविहीना ये पाषण्डा वेदनिन्दकाः अधर्मनिरदानैव नरकार्हा हरिस्मृतेः वेदमार्गबहिष्ठानां जनानां पापकर्मणाम् मनःशुद्धिविहीनानां हरिणाम् नैव निष्कृतिः दैवाधीनं जगत्सर्वमिदं स्थावरजङ्गमं यथा प्रेरितमे तेन तथैव कुरुते द्विज शक्तिदत्सर्वकर्माणि वेदोक्तानि विधाय च समर्पयेन्महाविष्णौ नारायणपरायणः समर्पितानि कर्माणि महाविष्णौ परात्मनि सम्पूर्णतां प्रियान्त्येव हरिस्मरणमात्रतः हरिभक्तिरतानां च पापबन्धो न जायते अतोदिदुर्लभालोके हरिभक्तिर्दुरात्मनाम् अहो हरिपरायेदु कलौघोरे भयङ्करे ते सुभाग्या महात्मान सत्सङ्गरहिता अपि हरिस्मरणनिष्ठानां शिवनामरतात्मनां सत्यं समस्तकर्माणि यान्ति अको भाग्यमकोभाग्यम रपिते पूज्या कि बहुभाषितोका हितमेव मयोच्यते हरिनाम परान्मर्त्यान्नकलिर्बाधर्त क्वचिद हरिर्नामैव नामैव नामैव मम जीवनं कलौ नास्त्येव नास्त्येव गतिरन्यधा उवाच सनारदो विप्रासनकेन प्रबोधितः पराम् निर्वृत्तिमापन्नः पुनरेदुवाचः नारद उवाच भगवन् सर्वशास्त्रज्ञस्वयादिकरुणात्मना प्रकाशितम् जगज्योतिपरम् ब्रह्म सनातनम् यदेव परं पुण्यमे ददेव परं तपः यस्मरेत्पुण्डरीकाक्षं सर्वपापविनाशनं ब्रह्मन्नाजगञ्चैददेकचित्सं प्रकाशितं त्वयोक्तं तत्प्रदीयेहं कथं दृष्टान्तमन्तरा तस्माद्येन यथा ब्रह्मप्रदीदम् बोधिते न तु तदाख्याति यथा चित्तं सीदस्थितिमवाप्नुयात् यद श्रुत्वा वचो विप्रा नारदस्य महात्मनः स न कः प्रत्युवाचे परम् सनक उवाच ब्रह्मन्नहं ध्यानपरो भवेयं सनन्दनं पृच्छ यथाभिलाषं वेदान्तशास्त्रे कुशलस्तवा यं निवर्तयेत्वा परमार्यवन्द्यः इदीरिदं समाकर्ण्य शनकस्य स नारदः सनन्दनं मोक्षधर्मान् प्रष्टुम् समुपचक्रमे इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे नाममाहात्म्यं नामैक चत्वारिंशोऽध्यायः ॐ